शशी पातुषि रोदेशम् पालम् पातु कलानिधिः चक्षुषीचन्द्रमाप्पातु श्रुतिम् पातुकलात्मकः घ्राणम् पक्षकरः पातु मुखम् कुमुदबान्धवः सोमः करोतु मे पातु स्कन्धौ सुधात्म पातु सुधात्मकः गुरो मेजनिरः पातु मध्यम् पातु निसागरः कटिम् सुधाकरः पातु जङ्घे पात्वमृताभ्यः पादो हिमकरः पातु पातु चन्द्रोऽखिलम् वपुः एतद्धिकवचम् पुण्यम् भोक्तिमुक्तिप्रदायकम् यठे शृणि जात्वापि सर्वत्र